अथ चतुर्विंशः सर्गः तामाशु वेगेन दुरासदेन त्वमभिप्लुताम् शोकमहार्णवेन पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेन प्रतिमेन तेपे सबष्पूर्णेन मुखेन पश्यन् क्षणेन निर्विण्णमनामनस्वी जगाम रामस्य शनैः समीपम् भृत्यैर्वृतः सम् परिदूयमानः सतम् समासाद्य गृहीत चापमुदात्तमाशीविष तुल्यबाणम् यशस्विनम् लक्षणलक्षिताङ्गमवस्थितम् राघवमित्युवाच वा यथा त्वया दृष्टफलम् च कर्म ममाद्य भोगेषु नरेन्द्रसूनो मनो निवृत्तम् हत जीवितेन अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरेति दुःखतप्ते हते नृपे संशयितेङ्गदे च रमते मनोमे मे क्रोधादमर्शादति विप्रधर्षाद्भ्रातुर्वधो मेऽनुमतः हतेत्विदानीम् हरियूथपेऽस्मिन् सुतीक्ष्णमिक्ष्वा कुवर प्रतप्स्ये श्रेयोद्यमन्ये मम शैलमुख्येतस्मिन् निवादश्चिरमृश्य मूके यथा तथा वर्तयतस्व वृत्त्या नेमम् निहत्य त्रिदिवस्य लाभः तस्यैव तद्रामवचोऽनुरूपमिदम् वचः कर्म च मेऽनुरूपम् भ्राता कथम् नाम महागुणस्य भ्रातुर्वधम् राम विरोचयेत् दुःखस्य च वीरसारम् विचिन्तयन् काम वधो हि मे मतो नासीत् स्वमाहात्मव्यतिक्रमात् ममासीद्बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः द्रुमशाखावभग्नोऽहम् मुहूर्तम् परिनिष्टनन् सान्त्वयित्वा त्वनेनोक्तो नपुनः पुनः कर्तुमर्हसि भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः मया क्रोधश्च कामश्च कपित्वम् च प्रदर्शितम् अचिन्तनीयम् परिवर्जनीयमलीप्सनीयम् खणवेक्षणीयम् प्राप्तोऽस्मि पाप्मानमिदम् वयस्य भ्रातुर्वधा त्वाष्ट्रवधा दिवेन्द्रः पाप्मानमिन्द्रस्य महीजलम् च वृक्षाश्च कामम् जगृहस्त्रियश्च को नाम पाप्मानमिमम् सहेतशाखा मृगस्य प्रतिपत्तुमिच्छेत् नार्हामि सम्मानमिमम् प्रजानाम् न यौवराज्यम् कुत एव राज्यम् अधर्मयुक्तम् कुलनाशयुक्तमेवम्विधम् राघव कर्म कृत्वा पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य लोके शोको मामभिवर्तते यम् सोदरीयघाता परगात्र वालः सन्तापहस्ताक्षिशिरो विषाणः एनो मयो मामभिहन्ति हस्ति दृप्तो नदी कूलमिव प्रवृद्धः अम्भो बतेदम् रवराविषह्यम् निवर्तते मे हृदि साधु वृत्तम् अग्नौ विवर्णम् वरितप्यमानम् किट्टम् यथा राघवजातरूपम् महाबलानाम् हरियूथपानामिदं कुलम् राघवमन्निमित्तम् अस्याङ्गदस्यापि च शोकतापादर्धस्थित प्राणमितीव मन्ये सुतः सुलभ्यः सु जनः सु वश्यः वीरदेशो यस्मिन् अद्याङ्गदो वीरवरो न जीवे जीवेत पुत्रम् परितापदीनासा नैव जीवेदिति निश्चितम् मे सोऽहम् प्रवेक्ष्याम्यदि दीप्तमज्ञम् च पुत्रेण च सख्यमिच्छन् इमे विचेष्यन्ति हरिप्रवीराः परिवर्तमानाः कृत्सन्तु ते सेत्स्यति कार्यमेतन्मय्यप्यतीते मनुजेन्द्रपुत्र कुलस्य हन्ता रमजीवनार्हम् रामानुजानीहि कृतागसम् मा इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वालि जघन्यजस्य सञ्जातबाष्पः परवीर हन्ता रामो मुहूर्तम् विमना तस्मिन् क्षणे भीक्ष्णमवेक्षमाणः क्षितिक्षमावान् भुवनस्य गोप्ता रामो रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सोऽथ ददर्शताराम् ताम् चारुणेत्राम् कपि सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपादपनीयमाना ददर्श रामम् शरचापपाणिम् स्वतेजसा सूर्यमिव ज्वलन्तम् सुसंवृतम् पार्थिव लक्षणैश्च मृगशावनेत्रा अदृष्टपूर्वम् पुरुष प्रधानमयम् स तस्येन्द्र कल्पस्य दुरासदस्य महानुभावस्य समीपमार्या आर्तातितूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती तम् सा समासाद्य विशुद्ध शोकेन सम्भ्रान्त शरीर भावा मनस्विनी वाक्यमुवाच तारा रामम् त्वमा त्वमप्रमेयश्च दुरासदश्च चितेन्द्रियश्चोत्तमधार्मिकश्च अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावाङ्क्षतजोपमाक्षः त्वमात्त बाणासन बाणपा निर्महाबलः संहननोपपन्नः मनुष्यदेहाभ्युदयम् विहाय दिव्येन देहाभ्युदयेन युक्तः येनैव बाणेन हतः प्रियो मे तेनैव बाणेन हि माम् जहीहि हतागमिष्यामि समीपमस्य न विना वीर रमेतवाली स्वर्गेऽपि पद्मामलपत्र समेत्य सम्प्रेक्ष्य च मामपश्यन् न ह्येष उच्चावचताम्रचूडा विचित्र वेषाप्सरसो स्वर्गेऽपि शोकम् च विवर्णताम् च मया विना प्राप्स्यति वीरवाली रम्ये न तटावकाशे विदेह कन्या रहितो यथा त्वम् त्वम् वेत्थ तावद्वनिता विहीनः पुरुषः कुमारः तत्त्वम् प्रजानम् जहि माम् न वाली दुःखम् ममादर्शनजम् यच्चापि मन्येत भवान् महात्मा स्त्री घातदोषस्तु भवेन्न मह्यम् आत्मेयमस्येति हि माम् जहित्वम् न स्त्रीवदस्यान्मनुजेन्द्रपुत्रा शास्त्रप्रयोगाद् विविधाश्च वेदादनन्यरूपाः पुरुषस्य दाराः दार प्रदानाद्धि न सञ्चापि माम् तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर अनेन दानेन लप्स्यसे तम धर्मयोगम् मम वीरघाता आर्तामनाथामपनीयमानामेवम् गताम् नार्हसि मामहन्तुम् अहम् हिमातङ्गविलासगामिना प्लवङ्गमाना वृषभेण धीमता विना परार्होत्तम हेम मालिनाचिरम् न शक्ष्यामि नरेन्द्र जीवितुम् इत्येवमुक्तस्त्व विभुर्महात्मा ताराम् समाश्वास्य हितम् बभाषे हि सर्वो विहितो विधात्रा तम् चैव सर्वम् सुख दुःखयोगम् लोकोऽ ब्रवीत्तेन विधात्रा त्रयोऽपि लोका विहितम् विधानम् नातिक्रमन्ते वशगाहितस्य प्रीतिम् पराम् प्राप्स्यसि ताम् तथैव पुत्रश्च ते प्राप्स्यति यौवराज्यम् धात्रा विधानम् विहितम् तथैव न शूरपत्न्यः परिदेवयन्ति आश्वासिता तेन महात्मना त्वप्रभावयुक्तेन परम् तपेन सावीरपत्नी वीरपत्नी ध्वनता मुखेन सुपेशरूपा विररामतारा इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये इष्किन्धा काण्डे चतुर्विंशः